अथ विंशत्यधिकशततमोऽध्यायः वैशम्पायन उवाच एवमुक्ता महाराज कुन्तीपाण्डुमभाषत कुरूणा वृषभं वीरं तदा भूमिपतिम् पतिं न धर्मपत्नीमभिरताम् धर्म त्वयि राजीवलोचने मयि अपत्यानि भारत वीरवीर्योपपन्नानि धर्मतो जनयिष्यसि स्वर्गं मनुजशार्दूल गच्छेयं सहितात्वया त्वया अपत्याय च मां त्वमेव कुरु न ह्यहं मनसाप्यन्यं गच्छेयं त्वद्रते नरं त्वत्तः प्रतिविशिष्टश्च कोन्योऽस्ति भुवि मानवः इमां च तावद्धर्मात्मन् पौराणीं शृणु मे कथाम् परिश्रुतां विशालाक्ष कीर्तयिष्यामि व्युषिताश्वत बभोव किल पार्थिव पुरा परम धर्मिष्ठ पूर्वश विवर्धन तस्जमे वै धर्मात्म महाभुजे उपगम स्था सेह अमाग्रदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः व्युषिताश्वस्य राजर्षेः ततो यज्ञे महात्मनः देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा व्युषिताश्वस्ततो राजन् अतिमर्त्यान् व्यरोचत